हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्री अध्यात्मरामायणे सुन्दरकाण्डे प्रथम स्वर्गः श्रीभादेव उवाच शतयो जन विस्तीर्णम् समुद्रम् अकरालयम् लीलङ्गैश्वरानन्द सन्दोह मारुतात्मजः ज्ञात्वा रामम् परात्मानम् इदं वचनमब्रवीत् पश्यन्तु वानरा सर्वे गच्छन्तम् मां विहाय सा अमृघम् रामनिर्मुक्तम् महाबाणम् विवा किल पश्याम्यद्यैव रामस्य पत्नीम् जनकनन्दिनीम् कृतार्थोऽहम् कृतार्थोऽहम् पुनः राघवम् प्राणप्रयाणसमये यस्य रामः सकृत्स्मरन् नरसीत्वा भवाम्भोधि अपारं याति तत्पदम् किं पुनः तस्य दूतोऽहम् तदङ्गाङ्गुलिमुद्रिकः सम्भेव हृदये ध्यात्वा ल्याम्यल्पवारिधिम् इत्युक्त्वा हनुमान् बाहू प्रसार्यायतवालधि ऋयुग्रीवोर्धदृष्टि सन् आकुञ्चितपदद्वयहे दक्षिणाभिमुखतूर्णम् पुप्लोवे नीलविक्रमः आकाशात् त्वरितं देवै वीक्ष्यमाणो जगामसः दृष्ट्वा नीलसु तं देव गच्छन्तं वायुवेगतः परीक्षणार्थं सत्वस्य वानरस्येदमब्रुवन् गच्छत्येषरो वायुविक्रमः लङ्कां प्रवेष्टुं शक्तो वा न एवं विचार्य मातरं सुरसाभिधाम् अब्रवीत् देवतावृन्द कौतूहलसमन्वितः गच्छ त्वं वानरेन्द्रस्य ज्ञात्वा तस्य बलं बुद्धिम् पुनरेही त्वदान्वितः इत्युक्ताश यो शीघ्रम् हनुमान् विघ्नकारणात् आसृत्य मार्गं पुरतः स्थित्वा वानरम् अब्रवीत् एहि मे वदनं शीघ्रम् प्रविश्य महामते दैवे देवैस्सम् कल्पितो भक्ष्य क्षुधासम् पीडितात्मनः तामः हनुमान् मातः अहं रामस्य शासनात् गच्छामि जानकीं द्रष्टुम् पुनरागम्य सत्वरः रामाय कुशलं तस्या कथयित्वा तदाननम् निवेक्ष्ये देहि मे मार्गम् सुरसायै नमो स्तुते इत्युक्त्वा पुनरेवाह सुरसा, पुनरेवा सुरसा क्षुदितस्म्यहम् प्रविश्य गच्छ मे वक्त्रं भक्षयाम्यहम् इत्युक्तो हनुमानः मुखं शीघ्रं विदार्य प्रविश्य वदनं तेज्य गच्छामि त्वरयान्वितः इत्युक्त्वा योजनायामम् देहो भूत्वा पुरस्थिते दृष्टा हनुमतो सुरसः मुखं चकारे हनुमान् द्विगुणं रूपमादधत् तत चकार सुरसा योजनानाञ्च विंशतिम् वक्त्रं चकारे हनुमान् त्रिंशद्योजनसर्मितम् ततश्चकारे सुरसा पञ्चाशद्योजनायतम् वक्त्रं तदा हनुमान् तु बहुवाङ्गुष्ठसन्निभ प्रविश्य वदनं तस्याः पुनरेत्य पुरस्थिता प्रविष्टो निर्गतोऽहं ते वदनं देवि ते नमः एवं वदन्तं दृष्ट्वा सा हनुमन्तं मथा गच्छ साधय रामस्य कार्यं बुद्धिमतां वर देवै सम्प्रोषिताहं ते बलं जिज्ञासुभि कपे दृष्ट्वा सीतां पुनर्गत्वा रामं द्रक्षसि गच्छ भो इत्युक्त्वा साययो देव लोकं वायु वायुसुतः पुनः जगामि वायुमार्गेण गरुत्मान् निवपक्षिराक् समुद्रोऽप्याह मयनाकम् मणिकाञ्चनपर्वतम् गच्छत्ये शमासतो हनुमान् मारुतात्मजः रामस्य कार्यसिद्ध्यर्थं तस्य तं चिवो भवे सगरैर्वर्धितो यस्मात् पुराहं सागरो तस्यान्वये प्रभु रामो दाशरथि प्रभु तस्य कार्यानुसिध्यर्थं गच्छत्येश मम महाकपिः तम् उत्तेष्य जलात्पूर्णम् विश्रम्य गच्छतु स्वतथेति प्रादुरभूत जलम् मध्याह्नमहोन्नतः नानामणि मयै शृङ्गै तस्योपरि प्राहयान्तं हनो मन्दं मै को हाकपे कोऽहं हा कपि समुद्रेण समादिष्ट मारुते अगच्छामृतकल्पानि च्वा पक्वफलानि वे विश्रम्यात्रक्षणं पश्चात् गमिष्यसि यथा सुखम् एवम् उक्तोऽथ तं प्राह गच्छतो रामकार्यार्थं भक्षणं मे कथं भवेत् विश्रामो वा कथं मे स्यात् गन्तव्यं त्वरितं मया इत्युक्त्वा स्पृष्ट शिखरे छायां छायाग्रहो गृहीत् नाम सा जलमध्ये स्थिता सदा आकाशगामिनां छायाम् क्रम्याकृष्य भक्षयेत् तया गृहीतो हनुमान् चिन्तयामास वीर्यवान् केनेदम् कृतं वेग रोदनं विघ्नकारिणा दृश्यते नैव कोऽप्यत्र विस्मयो मे प्रजायते एवं विचिन्त्य अधो दृष्टिं प्रसारयन् तद्दृष्ट्वा तत्र दृष्ट्वा महाकायम् सिंहिकां घोररूपिणी पपात सलिले तूर्णम् पद्भ्याम्बे वाहन दृशा पुनरुत्प्रत्य हनुमान् दक्षिणाभिमुखो ययो ततो दक्षिणमासाद्य कूलं नानाफलद्रुमं नाना पक्षि मृगाकिरणं नानापुष्पलतावृतं ततो ददर्श त्रिकूटाचलमूर्धनि कारै बहुभि युक्तम् परिखाभिश्च सर्वतः प्रवेक्ष्यामि कथं लङ्काम् इति चिन्ता परो भवेत् रात्रो वीक्ष्यामि सूक्ष्मोऽहम् लङ्कां रावणपालिताम् एवं विचिन्त्य तत्रैव स्थित्वा लङ्कां जगाम सः धृत्वा सूक्ष्मं वपूर्द्वारम् प्रविश प्रदापवान् तत्र अलङ्का पुरी साक्षात् राक्षसी वेषधारिणी प्रविशन्तम् हनुमन्तं दृष्ट्वा लङ्काव्यतर्जयत् कष्टं वानररूपेण माम्ना दृप्त्यलङ्किनीम् प्रविश्य चोरवद्रात्रौ किं भवान् कर्तुमिच्छति इत्युक्त्वा रोषतां राक्षी पादेनाभिजघानम् हनुमान् पिताम्बाम मुचिना वद्ययाहनत् तदैव पतिता भूमौ रक्तम् उद्भमति भृशम् उत्थाय प्राहसा लङ्का हनुमन्तम् महबलं। हनुमन् गच्छ भद्रं ते जिता लङ्का त्वया नघ पुराहं ब्रह्मणा प्रोक्ता यष्टाविंशति पर्यये त्रेतायुगे दाशरथि जनश्यते सीता यण व्यय जनिष्योग सीताजनकूभार हरणा प्राथि मैं कचि स भार्यो राघव भ्रा ग्यवन त्र सीताया रावणपरीश्यति पश्चाद्राण साचिव्यं, सुग्रीवस्य भविष्यति सुग्रीवो जानकीं द्रष्टुम् वानरं प्रेषयिष्यति तत्र वानरो रात्रौ आगमिष्यति तेन त्वया च भर्चित सोऽपि सा मनेष्यति मुष्टिना तेन तातम् व्यथिता भविष्यसि यदा नघे तदैव रावणस्यातो भविष्यति न संशय तस्मात्त्वया जितालङ्का चितं सर्वं त्वया, त्वया नघ तप्पुरवरे, पुरवरे क्रीडाकानमुत्तमम् तन्मध्ये शोकवनिका दिव्यपादपसङ्कुल अस्ति तस्याम् आवृक्ष शिंश्यपा नाम मध्यग तत्रा श्रे जानकी घोर राक्षसीभिः सुरक्षिता दष्ट्वैव गच्छ त्वरितम् घवाय निवेदय धन्याहमप्य चिराय राघव स्मृतिर्ममासीत् भव पाशमोचरी तद्भक्तसङ्गोप्यति दुर्लभो मम प्रसीदतां दाशरथि सदारु उल्लिङ्गतेभ्यो पवनात्मजेन दरा सुतायाश्च दशाननस्य पुष्पोरवामाक्षि भुजश्च तीव्रम् रामस्य दक्षाङ्गमतेन्द्रियस्य इति श्रीमदध्यातु रामायणे उमामिश्रसंवादे सुन्दरकाण्डे प्रथमः सर्गः